ष्ठोध्यायन उवाच गु विदुरेराजन्श्रमं पांडवान्ती धुतराष्ट्रो महाप्राज पर्यत्यतभारत विदुस प्रभावच संधि विग्रहकार विवृद्धि परां मांडवाना भविष्य सभा द्वार समक्षं विदुस्मो समकं पार्थिवेन्द्राण पताचेतन सू लब्ध्वा पुनः संज्ञा सहितलास्थित राजयम वाक्यम्रवीत भ्राता मम सुहृच साक्षा इवा इवापर है तस्य स्मृत्याजसुभृशम् हृदयम् दीर्यतीव मे तमानयः स्वधर्मज्ञम् मम भ्रातरमाशु इति ब्रुवन् कृपणं नृपतिः कृपणम् पर्यदेवयत् पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः भ्रातृस्नेहादिदम् राजा सञ्जयम् वाक्यमब्रवीत् गच्छ सञ्जयजानीहि भ्रातरम् विदुरम् मम यदि जीवति रोषेण मया पापेन निर्धृतः न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन व्यलीकम् कृतपूर्वम् वै प्राज्ञेनामितबुद्धिना सव्यलीकम् परम् प्राप्तो मत्तः परमबुद्धिमान् त्यक्ष्यामि जीवितं प्राज्ञा तम् गच्छानय सञ्जय तस्य तद्वचनम् श्रुत्वा राज्ञस्तमनुमान्य संजयो सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकम् प्रति सोचिरेण समासाद्य तद्वनं यत्र पाण्डवाः रोरवाजनसंवेतम् ददर्शाधयुधिष्ठिरम् विदुरेण सहासीनम् ब्राह्मणैश्च सहस्रशः भ्रातृभिश्चाभिसङ्गुप्तम् देवैरिव पुरन्दरम् युधिष्ठिरमुपागम्य पूजयामास सञ्जयः भीमार्जुनयमाश्चापि तद्युक्तम् प्रतिपेदिरे राज्ञापृष्टः सकुशलम् सुखासीनश्च सञ्जयः सशंसागमने हेतुमिदम् चैवाब्रवीद्वचः सञ्जय उवाच राजा स्मरति तेत् क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः तम्पस्य गत्वा क्षिप्रं क्षिप्रम् सञ्जीवय च पार्थिवम् सोऽनुमान्यनरश्रेष्ठान् पाण्डवान् कुरुनन्दनान् नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तमा वैशम्पायन उवाच एवमुक्तस्तु विदुरो धीमान् स्वजनवल्लभः युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् महातेजा धृतराष्ट्रोऽम्बिका सुतः दिष्ट्या प्राप्तोऽसि धर्मज्ञा दिष्ट्या स्मरसिमे मे नघ अद्य रात्रो त्वत्कृते भरतर्षभा प्रजागरे प्रपश्यामि विचित्रम् देहमात्मनः सोङ्कमानीयविदुरम् मूर्धन्याघ्राय चैवः क्षम्यतामिति चोवाचा यदुक्तोऽसि नघ विदुर उवाच क्षान्तमेव मया राजन् गुरुर्मे परमो भवान् एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः भवन्ति हि नरव्याघ्रा पुरुषा धर्मचेतसः दीनाभिपातिनो राजन्नात्रकार्या विचारणा पाण्डोः सुता यादृशा दीना इतीव मे बुद्धिरभिपन्नाद्यतान्प्रति वैशंपायन उवाच अन्योन्यमनुनीयैवं भ्रातरो द्वौ महाद्युती विदुरो धृतराष्ट्रश्च लेभाते परमाम् मुदम् इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः